इयम् oh. वात्रादे पपितरामुख्यम् शिक्षतम् अनाभिरज्ञासरात्या पुरा तस्याः अभिशस्तेरव स्मृतम् दिवं से न विमलाय सिन्धुरन्यो हुरुमित्रस्य योषना द्रिमत्या गच्छतम् जुवम् सुषूतम् चक्रतः पुरम् धरेषः पुनः करेलतम् युवध्वजाः इवम् वन्दनमृश्यताम् सद्यो विश्वरामेतवेदुतः इमम् एवम् रेषणागुहाहितमुदैरयश्विना शिवमिमीशमुदसप्तवत्र शवोमन्वन्तम् सङ्कृतः सप्तवध्रये शिवम् श्वेतम् पेटवे शिलाश्वम् नवभिर्वादीर्नवदीशवादिनम् चर्कृत्यम् ददर्द्रावयत्स गम्भगन्नरभ्यो हव्यम् मजोभुवम् कथम् राजानवतिते कुतश्चरणाम्भोः अस्नोति नगद्भयम् यमनश्रेना सुगवारुद्रवर्तनी गुरोरम् प्रेमसपत्न्या सह आदेन जातम् मन सोचवीयसाम् वाक्रुरश्वि यस्य योगे दुहिता दिवबुभे अरानि सुदिने विमस्वादः जयुषापि पर्वतमपि सजवे धेनुमश्वि ृकस्य चिद्वर्तीकामन्दरा स्याद्यवंसजेभिर्गृशितामामुञ्चतम् एतम् वां सो नाम श्रिनाम कर्मा तामभृका मोनरथम् ज्ञानक्षामयोषा नाम्न मर्ये नित्यम् न सूनम् तनयम् दधानाः तम् गुहकोहनम् सुपिता जभूषति तोर्वस्थोर्विद्विनागुहाभिपित्तम् करतकुहो को वाम् स यत्रामिषमेव देवनम् मर्यम् न योषा कृणते सदसा रणे बावा यापस्तोर्वस्तो गच्छतो गृहम् कस्य भस्त्रा वा नाराजपुत्रे भवनावागच्छतः युवाम् मृगेव वा रमृगण्यवो दोषा वस्तोर्हविधानित्वा रामहे ोत्रा मृदुता युक्वा ते नरे सञ्जना जवहतः शुभस्पतिवाम् रघोषा वर्यनायै राज्ञा भूते दुहिता वृच्छेवाम् नरा भूतम् मे अह्ना भूतवक्तवे स्वापते रसिने स वेष्टः पर्यस्विनानसं न कुत्सो जम्नायः युवोर्णमक्षापर्यस्विनामध्वासाभरनिष्कृतम् न गोषणा युवङ्गभुज्यम् युवमश्विनामसं युवम् सिञ्जानमुत नामुदाहरतुः युगोरावापरिसख्यमासते युवोरहमवासा सुम् नमाच के शिवम् वा कृशम् युवमश्विना सयुम् युवम् विधन्तम् विधवा मुरुष्यतः युवम् सनिभ्यस्तनयम् तमश्विनाव्रजमोर्मतः सप्तास्यम्कनि न को विचारूहन्वीरुस्मैरीयन्ते नित्पदि त्वनम् जन्ते अध्वरे दीर्घामी वा तस्य विद्वदृषप्रभो च दयुवा हयद्योपत्याः क्षे ोनीषो प्रियो श्रियस्य ऋषभस्य रेतिनो गृहङ्गमेवाश्रीनादुष्मसि ुमर्वाजिनीव सून्याश्विना हृत्सु कामाः अयम् सत अघोरम् गोपामीधुना सुभस्पती प्रियां नो दुर्याम् वसीमहि कामन्दसामरोषो दुरोणः सहक्तम् ीर्थम् सुप्रभाणम् सुभस्पति स्थानम् वा देष्टामपाम् भरतम् जगतमाश्वशिना विक्षुतस्रा मादये सुभस्पती कथीन्ये मे कतमस्य जग्म दुर्विप्रस्य बालय मानस्य वा गृहम् समानमुच्यम् भूरुभूतमुच्या अम्रतम् त्रिचक्रम् सव नागनिग्मतम् परिज्ञानम् विदध्यम् सुभक्तिभिर्भयम् व्यूषो हवामहे स्वातर्युतम् नासत्याधीरिष्ठदर्यावानम् सुवाहनम्रथम् ईश्वरेण गच्छागीरे स्थित्यम् भोद्रे मन्द्रमश्विना आचार्यम् वा मधुवानिम् सुहस्य मग्निधम् वाधृदक्षं न मोहो न वायच्छोदारातम् मधुके न वश्विना अस्ते वसुप्रातरम् राजमस्य भूषन् ो मास्मै वाचामित्रास्तवाच वर्योनिराभयजरित सोमीन्द्रम् दोरे न कामुखा शिक्षासखायम् प्रभोधय जरितर्जालमिन्द्रम् कोसन्नपूर्णम् त्वा मघवन् भोजमागुसिमासियन्त्वा शृणोमिन्द्राधरा मम सत्येष्विन्द्रन्दस्थाना विक्त्वायम् ते समीपे अत्रायुषम् कृणुते यो हविष्वान्वासंवता सत्यम् वष्टिसूराः ुलम् यो अस्मै दीर्वान् सोमान्वासुनो जिप्रवान् अस्मै शत्रून् सुसुखान् रातरन् मानिस्त्वम् तीर्त्रान् यस्मिन् वयम् दधिमासम् धविन्द्रे यशिश्राजमखभास्मे आराचित्सम्भज नामस्य शत्रूण्यास्मे ज्युम्नाजन्यानुताम् आराच्छत्रो बादस्वरूपमुद्रोजसम्भक्पुरुः तनेन अस्मे देवे हि यमद्गोमादिन्द्रगृहीहिरित्रे वाचरत्नाम् दीव्राः सोमा बहुलान्ता स इन्द्रम् गाहदामानम् मघवालियम् सन्निसन् तदेव हति भूरि वामम् उत प्रहामातिदेव्या जयाति कृतम् यच्छाग्नि चिनोति काले यो देवकामो नुमध्यसमित्तम् राजा श्रीगतिस्वधावान् गोभिष्टदेवामादिम् दुरेवाम् यवे न क्षुधम् पुरुहोदविस्वाहम् अजम् राजाभिप्रसाधान्यस्माकेन वृजनेनाजयेम बृहस्पतिर्नः परी पातु पश्चादुदोत्तरस्मादधानाथधायोः इन्द्रः पुरस्ताधुतमध्यतो नः सखासखिभ्योपरीव कृणोतु अर्चामयिन्द्रम् मदय स्वर्विकः स्वध्रीचेर्विश्वावुषदीरनूषत परेष्वजम् तेजनयोजशापधिम् मर्यम् न शुन्ध्युम् मघवा न मूद्रये नृगपवेति मे मनस्वेदिकामम् पुरुहूतशिश्रया ेव्यस्मिन् सोमे वपानवस्तुते यषोभृजिन्द्रो रुतक्षुध स यद्राजो मघपापस्त्वशते तस्य दिमे प्रवने सप्तसिन्धभोपयो वर्धन्ति वृषभस्य सुष्मिनाः अयोन वृक्षम् सूपलासमासधम् सोमाः जिन्द्रम् मन्दिनश्च मूषदाः ुदत्स्वा अर्म न भेज्योतिरार्यम् कृतम् न स्वप्ने विचिनोतिरेवाने संवर्गम् जन्मघ वा सूर्यम् जयत् न अन्यो अनो दीर्यम् स घन्न पुराणो माघवन्नो र्य पचाकसदृशाः यस्याः शक्रस्वरे शुरञ्जीव्रैः सोमैः सह ते कृतम् यतः समक्षोमाः शयेन्द्रम् कुल्यायी बहृताम् ्रामो अस्य सादनेय वन्द्रर्दिव्येनूना विडानकरुधः पादयद्रज स्वायो अर्यपद्घेरणो जिमा अपहसं मघवाजीरदानवे विन्दज्यो जन्मनवे हविष्मते पूज्यायताम् परसर्ज्योतिषा सह भोजारस्य सुदुभा पुराणवत् ज रामलो भानुना सु अन्नशुक्रम् सुचितसत्पादिः कोऽभिष्टरे मामादिम् दुरे वाञेनक्षुधम् पुरुहूत विस्वाम् अयम् राजाभिक्तसमाधनान्यस्माकेन जयेम गृहस्पम् नः परि पातु पश्चादुतोत्तरस्मादधादधाजोः इन्द्रः पुरस्तादुरमध्यजो नः सखा सखेभ्योपरीव कृणोतु आजात्येन्द्रस्वपदर्मदा यो आजा धर्म नातु जानस्तु युष्मान् प्रत्वविश्वासहांस्य पारेण महता वृष्णेन सुदुयमाहरीते यक्षवज्रो शीभम् राजम् सुवामता पुरुषो वृष्ण्यानि हेन्द्रबाहोपतिम् वज्रबाहुमुद्रमुद्रासयत्वक्षसम् वृषभम् सत्यसुष्मेव नंसते रसमूर्जस्कम्भम् तरुणाभिभाजसे भोजः कृष्णसङ्ग्रे भायत्वे अप्यसो यथा के निपाना विनो वृधे गमनस्मेन शून्या हि संशेषम् स्वाशिषम्फलमायाहि सोमिनाः सत्सि परिभिश्च नाधिष्ठवपात्राणि धर्मणा रथप्रायम् प्रथमा देवभूध लोकम् पश्यानि दुष्टराः देतु मारुघमीर्मैव पाकपारे सन्तदूर्यो स्वायेषाम् दुर्युच आयुजुधे इच्छाय प्रागुपरे सन्ति रावणेन पुरोनि यत्र वयुमाहानि भोजना नाङ्गधारयद्यौ तदन्तरिक्षाणि कोपयत् समीचीने दिशने विष्का भाजति विष्णीमदांसति इमम् विभर्मिषु कृपाः अस्मिन् सुदेधमाने अस्तो सुरविष्टो गो माघवम् गोद्राभगः गोविष्टरे मामादिम् दुरेवाम् जवे न क्षुधम् पुरुहोत विस्वाम् अयम् राजाभिप्रथमाधनान्यस्माकेन वृजनेनाजयेम बृहस्पचन्नः परी पातु पश्चादुतोत्तरस्माद राधगायोः इन्द्रः पुरस्तादुतमध्यतो नः सघासगिभ्योपदेव क्रणोतुरि प्रथमम् यज्ञे अग्निरस्मद्वितीयम् परि जातवेदाः श्रीयामनायश्रमिन्धा नयनम् जरते स्वाहीः विग्नादे अग्ने त्रयधात्रयाणि विघ्नादेधामभिभेदा यद्मा ते नाम परमम् गुहायद्धिद्मातमुत्संयत जगन्था समुद्रे त्वा रमणा अस्वा अन्तर्विचक्षाजीधे दिवो अग्नबूधन् तीये त्वा रजासितश्चिवाम् समपामुपस्थे महिषा वर्धन् अक्रन्द्रिस्तनयन्ति वध्यो क्षामाले हद्वीरुधः समञ्जन् सद्यो जज्ञानो विही निक्षदारोदरसीभानुनाभात्यन्तः श्रीरामोदारोदरुणो रयीणाम् मनीषाणाम् प्रार्पानः सोम वसुः सो नः सहासो अप्सुराजाभिभाच्यग्रावृषसामिधानः विश्वस्य जेतुर्भुवनस्य गर्भारोदी अवृणाज्याजमानः एलम् जिलत्रिमभिनत्वराजम् जनायग्निमयाजन्तपम् चिपावको अ ृषम् परिभ्रदुच्छुक्रेण शोचिषाद्यामिनक्षन्मया व्याद्यौ दुर्मेरुचानः अग्निरमृतो अभवद्मजो भर्यतेन जनयः सुरेताः यते अद्य गणवद्भद्रशोचे पूपन्दतवन्तमग्ने प्रतम् नयप्रतरम् वस्योहच्छाभिसुम्नम् देवभक्तम् यमिष्ट आतम् भजसौ श्रभसेष्वग्नमुक्खमुक्था भजसस्य माने प्रियः सूर्ये प्रियो अग्नाभ्युज्जातेन ददुजनित्वैः त्वामग्ने यजमानाद्योन्विश्वामसुदधिरेवार्यानि सहद्रवीणमिच्छमाना कृतङ्गोमन्तमुषियो विभौरो अष्टाव्यग्रन्नरां सुदेवो वै स्वानरषिभिः सोम गोपाः अद्वेषेद्यावाकृषिविभू मदे वै मदेवा धर्तरयिवस्मे सुवीरम् भर्तग्रान्धो अपि वातजमनाः ओ जातो महान्न भोविण्दपामुपस्थेयो राजिष देवयाम् शिरम् प्रावसूनिधे त लोपाः इमम् विधन्तो अपाम् सधस्ते प्रसन्न नष्टम् पदैरनुग्मन् चन्दमुषि यो नमोऽभिरिचम् तो धीराभृ गोविन्दम् इमन्त्रतो भूर्यविन्दन् वै भूवसो मोध्वन्यज्ञायाः जा। सेवृतो जाता हर्म्येषु नार्युवा भवति लोचनस्य मन्त्रम् होता नमुषुशो नमोऽभिप्राञ्चम् यज्ञम् निशामकण्ड्वन्न रतिम् पावकम्भौ यवाहम् नो मानुषेषु प्रभोज्जयम् ब्रह्मा बोधाम् धर्मानं। पुराम् धर्माणम् नयम् तो गर्भम् वनाम् धियम् धर्हिरस्वश्वनर्चम् निपश्चाशुतस्तभोजन् परिवीतो यो नौ सीदन्तः अतः सङ्गृभ्याभिशाम् दमो नाभिधर्मणायन्त्रैरीयतेन्द्रेण अस्याचरासो समा परित्रा अर्चधूमासो अग्नयः पापः सिद्धेखय स्वात्रासो भरण्यवो भनर्षदो भाजवो न सोमाः जिह्जाः फलदेवे भोः अर्जिः प्रभजुनाधिरेदसा पृथिव्याः वाचवः सुचयम् तम् वाकम् मन्त्रम् होताहम् दधिरेजिष्टम् या वाजमग्निम् पृथिवीजनिष्ठा वा पस्त्वष्टाभृता भोजम् सहोभिः ईलेञ्जम् प्रशमम् मानि स्वाहा देवास्तधुर्म न वेदत्रम् यन्वाह देवादधिरेऽहं यमाहम् पुरस्तु हो मादुषासो यजत्राम् श्रियामन्नग्ने स्तुवदेव यो धादेवयम् यशसः सं हि पूर्वीः जग्मा चेदक्षीतमिन्द्रहस्तम् वसूयवो वसुवदेवसूना चित्रम् मृषालम् हृजिन्दाः स्वायुधम् स्ववासम् सुनेधम् चतुस्समुद्रम् धरुणम् रजीणा चर्कृत्यम् सम् श्यम्भूरिवारमस्मभ्यम् चित्रम् मृषालम् रजिन्दाः सुब्रह्माणम् देववन्तम् रहन्दा मुरुङ्ग वीरम् ेषग्रमाभिमादिभाहमस्मभ्यम् चित्रम् मृषाणम् रयुन्दाः शरणद्वाशम् विप्रावीरम् तरुत्रम् धनस्पृतम् सुसुवांसम् सुदक्षम् गोर्भृतामिन्द्रसत्यमस्मभ्यम् चित्रम् मृषानम् रयुन्दाः अश्वावन्तम् रसिनम् वीरवम् सजिनम् वाजमिन्द्र भद्रम् रातम् विप्रवीरम् स्वर्षपस्पभ्यम् चित्रम् मृषानम् मृजिन्दाः प्रसप्तको मृतधीतिम् सुमेधाम् नृहस्पतिम् अतिरच्छा जिगाति गाङ्गिरसो नमसोपसद्योऽस्पभ्यम् चित्रम् मृषानम् मृजिन्दाः नो मम दूतासयन्द्राम् सोमाश्चलन्ति सुमतीयानाः हृदिनसा वच्यमानास्मभ्यम् चित्रम् मृषानम् वृन्दाः चत्वायामि दधिरन्नबन्दाम् क्षयमसा मञ्जनानाम् अभिर्यावाः पृथिवी गृह्णीतामस्मभ्यम् चित्रम् मृषानम् प्रयुन्दाः अहम् भो मम्बूनः रहं धनानि सञ्जायामि सस्वतः माम् गावम् नजम् दोहम् दातुषेऽपि भजामि भोजानम् अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिता जगाजनयमहेरथि अहम् दस्योभ्यः परे नृन्द माताजे गोत्राशिषम् दधीशे मा दधिस्वाने ष्टावज्रामदक्षताय सम्मयीदेवाधो रजन्नभिकृतम् अमानीकम् सूर्यस्यैव धुष्टरम् मामार्यम् दि कृते नखत्वेन च अहमेतम् गव्ययमस्यम् पसुम् पूरीषि मंसाय केनाहिरन्यजम् पुसहस्रा निशीसामिधासुषेजन्मासो मासमुक्थिनो अमन्दिषुः अहमिन्द्रो न परा यज्ञयद्धनम् न भृत्यमेव तस्थेतदा च न सोममिन्मा सन्वन्तो जाच तावसुनमे पूरवः सख्येरीशासन अहमेताञ्चाश्वसथोद्वाद्वेन्द्रम् जे वज्रम् युधयेतृन् तथा आक्रयमानाम् नवहन्मानाहम् <laughs> द्रुरावदन्ननामस्यन्नमस्विनाः अदी ईषमेकमेकोऽहस्मि निष्वादभि द्वारिमुद्रजः खलन्ति खलेन वरुषान् प्रति हन्विभूरि किम् मा निन्दन्ति तत्र निन्द्राः ङ्गुभ्यो अतिथिमविश्वरमिषम् न कृत्रसुरम् विक्षुसारजम् यत्पम् न जघ्नमुत वाचरन् जे प्राहम् महे कृत्रहत्ये असुस्रवि रमे न मे साप्ययिषे भुजे यद्यम् यतस्य समितेषो मङ्गजमादिजेन प्रणेमस्मिन् ददृशेषो अन्तर्गोपानेव माभिरस्त्राक्रीणोति स जिग्मलिङ्गम् ऋषभम् युजुत्सङ्गृहस्तस्य उौ बहुले बद्धो अन्तः आदित्यानाम् वसूनाम् ऋद्रियानाम् देवो देवानाम् नवीनामिधाम देमा भद्राय सपसेत चक्षुरपराजितमस्त्रे तमशाम् अहम् दाम् गृणदेवोर्जम्बस्वहम् ब्रह्म कृणब्रह्मह्यम्वर्धनम् अहम्भोमं यजामानस्य चोदिदायज्वलः साक्षिवि स्वस्मिन् भरे माम् सुरेन्द्रम् नाम देवता दिवश्चापाम् च जन्तवाः अहम् न ईर्षनाविव्रता रघु अहम् वज्रम् सपसे दृष्ट्वा ददे अहमर्कम् कवये शिस्रसंहसैरहम् कृत्स माभिरुचिभिः अहम् दृष्टस्य स्मसि तावधर्यमम् न योरन आर्यम् न मनस्य वे अहम् विषेव वेदसोङ्ग्रविष्टये तुग्रम् गुत्सायस्मदीभम् च गन्धयम् अहम् भूपम् यजमानस्य राजनिप्रयद्भरे तु जायेन प्रियाधृषे अहम् रम्भयम् मृगायम् श्रुतर्वाणेजन्नाजीहेतमयुनाशनानुषगे अहम् वेषम् नम्रमायमेकरमहंसव्यायमग्रेभिमरम् धयम् अहम् त्रयोरमास्तम् रहद्राशंसम् वृत्रे वदासं रत्रहारूजम् यद्वर्धयम् तम् रचयन्तमानुषग्दूरे पारे रजसोरोचनाकरम् अहम् सूर्यस्य पर्याञ्जासु भित्रैदशे भर्मः मानवोजसा जन्मासावो मनुषाः निर्मिदर्धत्रिभेदा सम्प्रत्यम् वसैः अहम् सप्तः नभोषो न हुष्टनप्रास्त्रा वजम् सव सा तु संयतुम् अन्यम् सहसा सहस्तरम् न भव्राधातो न पतिम् च वक्षयम् अहम् सप्तस्रवथो धारयम् मृषार्द्रमित्र पृथिव्याम् क्षीरा अधि अहमन्नाम् सिविती रामि शुक्रतुर्युधा वीदम् मन मेधामिष्टये न्दसुधारयम् यदा सु न देवश्च न त्वष्टाधारयदृषत् स्वार्हङ्गवामोधसुवक्षणा स्वाधोर्मध स्वात्र्यम् सोममासिरम् ये वादेवा इन्द्रो विभ्ये सत्यराधा श्वेत्ताते हरिव सति वोभिधस्वयसो गृह्णन्ति रमो महे मन्दमानायाम् धसोद्धा विश्वानराजविश्वाभुवे इन्द्रस्य यस्य सुमढंस होम हिस्रवो नोदशीषपर्यताः सो जन्मसख्यानर्यलः सुतश्चकृत्य इन्द्रो भावेन विश्वासु धूर्षु वाचकृत्येषु सप्तसे वृत्रे वा स्वा अभिशूरवन्दसे एते न रिन्द्रजेत जिषेजेतेः सुंसधन्या अभियक्षान् एते वाजासुर्याजयिन्विरेके अप्सु स्वासूर्वरा सुपुंसे भुवत्त्वमिन्द्रब्रह्मणा महान् भुवो विश्वेषु समानेषु यज्ञियाः भुवो ने सूत्रो विश्वस्मिन् भरे ज्येष्ठश्च मुन्द्रो विश्वदर्शने अपानुकम् जायाम् यज्ञमानसो महीम् तव मात्राम् पृष्टयो असोऽनुकमजरो बद्धास्त्रविश्वेदेतासमानादो दुमाग्रीषे एताविश्वासमानादो दुमाग्रीषे स्वयम् नूनो सरसो जानी दधिषे वरायदेवाम् धर्म नेतनायज्ञो मन्त्रो ब्रह्मोऽसाः एते विप्रब्रह्म कृतः सुते स चामसूनाम् चमसूनश्च धावने व्रते शूनश्च मनसा प्रसा भूपन्मते सुतस्य सौम्यस्यान्धसः महत्तदुल्भम् स्थबीरम् तदासीद्येनाविष्टितप्रविवेशी चापः श्वा अपश्यद्बहुधाते अग्ने जातवेदस्तन्वो देवजेताः को मादर्शनदभदेवो जो वे तन्वो बहुधा मित्रा पर्यपश्यत् क्वाहमित्रावरुणाक्षियन्त्यग्नेर्विश्वाः दे समिधो देवजानीः मयि सरा मत्वा बहुजाया तवेदप्रविष्टमग्ने अप्सोषाधीषु समन्त्वा यमोहाजिगे चित्रमानो दशान्तरुष्यादाजिरोचमानम् ओत्रादहं वरुणविद्यादायम्ने देवमाहायुनजन्नत्र स्यामेतन्मोपबुधानि विष्कायेतमर्थम् न सीकेताहमग्निः ये हिमनुर्देपयोर्यज्ञकामो नृत्यामाशिक्षेष्यज्ञे सुगापतः क्लीनिहि देवजानान्महासुमनस्य मानः अग्नेः पूर्वेभ्यतरो अर्थमेतम् रजीवाद्वानमन्वावरीवुः तस्माद्धिरवरुणगौरमायम् गौरो लक्षेप्नोरविजेध्यायाः कुर्मस्त्रायुरजनम् यदग्ने यथा युक्तो जातवेदो नरिष्याः असा वहासि मनस्य मा नो भागम् देवेभ्यो हमिषस्तु जातयान्मे अनुयासेवधानो जस्वन्तम् हमिषो धत्त भागम् घृतम् धावाम् पुरुषम् जौषाधिलाभग्नेश्च दीर्घमायूरस्तु देवाः तव प्रजानुजाश्च केवलमोर्जः सन्तो हविभः सन्तु भागाः तमाग्नेयज्ञोयवस्तु सर्वस्तुभ्यम् न मन्ता प्रतिसश्चतस्रः विश्वेदेवा शासनमायशेषोतावृतो मनभयन्निषद्य मे ब्रूतः गहेयम् यथा भोजेन पसा हव्यमा भो वहानि अहम् होदान्यसीदम् यदीयान् विश्वेदेवा मरुतो माजुनन्ति अहरानश्विनाध्वर्यमम् वाम् ब्रह्मा समिद्धपतिसाहुतिर्वाम् अयम् योः दारिरयवस्य कमप्यो हे यत्स मञ्जन्ति देवाः अहरहर्जायते मासि मास्य सा देवादधिरेऽहम् जवाहम् माम् देवादधिरेऽहम् जवाहमपम् रुक्तम् बहुकृच्छ्राचरन्तम् अग्निर्विद्वान् यज्ञम् नः कल्पयाति पञ्चायामम् धृवृतम् सप्तदन्त आभो यक्षमृतत्वम् धुवीरम् यथा भो देवा परिवराणि आबाहोर्वज्रवीन्द्रस्य धेयामधेमाविश्वादनाजयाति त्रीणि शता त्रिसहस्राण्यज्ञम् त्रंसश्च देवानवशासपर्यन् औक्षम् हृतैरस्त्रैरम् भरीरस्त्वामादिधोता गम्यासाधयन्त यमेच्छा मम न सासो ओयमागाव्यज्ञस्य विद्वान् गोरसि हिद्वान् देवता यक्षद्देवता दायती यान्निसनन्दरः पूर्वो अस्मत् पराधिगोता दा विषदायजीयानभिप्रयाम् सुषुधिता निघिक्षत् ययामहे यज्ञियाङ्गन्ददेवाङ्गीरा महायीजाङ्गाज्येन साध्वीमागर्देववीतिम्नो अद्य यज्ञस्य जिह्वामविदमगुह्या सावरागासुरभिर्वसानो भद्रामागर्देवहूतिम्नो अद्य तदः प्रथमम् मधीयेन सूराम् अभिदेवा असाम ूर्जातबुदयज्ञया सह पञ्चजनाम माहोत्रम् जुषध्वम् पञ्चज नाम माहोत्रम् जुषन्ताम् गोषाताबुदयज्ञया सह पृथिवीनः पार्थिवात्वा त्वम् ह्यासोन्दरिक्षणम् दिव्यात्वा त्वस्मान् अनन्वम्भानुमन्वी हृज्योतिष्पसो रक्षधिया कृताजोगो वामपोमलभ जनजातैर्यञ्जनम् रक्षागहो नश्यत लोदसोऽयिष्पेध्वम् रसमावोतपिम् सदाष्टावन्धुलम्बहताभितोरसंज्ञेन देवासो अनयन्नभिप्रियम् अस्मन्वतीरीयते संरभध्वमुत्तिष्ठद प्रदारता सखायः अत्राजः मये असन्न देवाशिवान्मयमुत्ताने माभिजाहे तुष्टा माजावे तपसा मपस्तमो बिभ्रत्पात्रा देवपानाः विरन्धमा सीते नूनम् परसं स्वायसं भृश्चादेतसो ब्रह्मनस्पतिः सरो नूनम् कवयः संस्रीसीतमासीभिर्याभिरमृताय दक्ष विद्वांसः प्रदा गुह्याय कर्तनयेन देवासो अमृतत्ववानसुः माध्यपीत्य सोदधि सति स्वाहा सुमना योग्याभिशीशासनिर्मनते कालयुज्जितिम् ताम् सुते कीर्तिम् अघवन्महित्वा यत्वा भीते रोदसी अह्वाजेताम् रावो देवादिरोदसमोदः प्रजायैत्वस्यै यदशिक्ष इन्द्र यतशास्तन्वा वावृधानो बलानीन्द्र ब्रभ्रुवालो जनेषु मायेत्स देयानि युद्धान्याहुर्नाद्यसत्रम् ननु पुरा बीवित्से वृणुते महिमनः समस्यास्मत्त्वोर्वर्षयोन्तमापुः यन्मातरम् च पितरम् च सागमजानयथास्तन्वा अश्वायाः चत्वारिदेवसूर्यामादाभ्यानिमयुढस्य सन्ति त्वमङ्गता निविश्वानिवित्सेजेभिः कर्मा विमघवम् च कर्त त्वम् विश्वादधिषे केवलानिरा च गुहावसूनि कामविन्मेमघमन्माविता धे त्वमाज्ञाता त्वमिन्द्रासि धाता योहधा ज्योतिषि ज्योतिरन्दर्यो असि जन्मधूना संमधूनि अधः प्रियम् सूषमिन्द्रायमन्म ब्रह्मकृतो मृगदुःखादवाचि दूरे तन्नामगुह्यम् पराजैर्यत्वा भीते अह एताम् योधै उतस्तभ्रा पृथिवीञ्जामभीते भ्रातुः पुत्रान्मभवन्त्यः महत्तन्नामगुह्यम् पुरस्पृगेन भूतम् जनयोजे न भव्यम् रहत्वम् जातम् योजर्यतस्य प्रियम् प्रिया समाविशम् आरोदसी अरुणातोदमध्यम् च देवा सप्त सप्त चतुत्रम् सदा पुरधा वितष्टेण ज्योतिषाविव्रतेन यदुराौच्य प्रथमा विभागाभजनयोगेन पुष्टस्य पुष्टम् यजते या त्वमपरन्परस्य महन्महत्याः सुरत्वमेकम् विसन्दत्राणम् दमने बहूनाम् युवानम् सन्तम् परितो जगार देवस्य पश्यकाव्यम् वहीत्वाद्यापमानसह्यः समान शात्मना साको अरुणस्न आयो महस्सूरः सनादनी यत्केत सत्यमिद्वन्मोऽ वसर्गमुतजेतो ददाता अयिभिर्देवंश्यार्येभिौक्षत्रहत्याय वज्री ये रमण क्रियमाणस्य मन्मऋयकर्ममुदजायन्त देवाः या कर्माणि देवा। जनयन् जन जन ी त्वे शोभस्य दिवावृधानस्यूरो निर्युधाद्रस्यून् इदम् तदेकम् परभूतयेकम् तृतीये रज्ज्योतिषा संविधस्व संवेदने तन्वा अश्चारुरेधिप्रियो देवानाम् परमे जनित्रे ोष्टे वाचिन्तन्वा अन्नयन्ती वाममस्मभ्यम् दातु धर्मदुभ्यम् अभ्रोतो ममो धरुणाय देवान्दिवी प्रज्योतिस्व दे मामियाः वाजदिवाजीनेना सुमे वितस्तमम् सुवितो दिवङ्गाः त्यासु विदो देवान्सुविदो नेतरश्च ने धीरे देवादेवेश्वरधुरविक्रतुम् समाविं यजुरुदयान्यत्रे धुरैराम् तनोनिवे विषु पुनः सरोघर्मिः संवरी चक्रमोलजः पूर्वाधा मान्य रामिमानाः नो रविश्वा भुवनानि ये मिरे प्रासारयन्तपुरुदः प्रजा अनु या सो नवो शूरम् स्वविधमास्तापयन्त तृतीये न कर्मणा स्वाम् प्रजाम् पितरप्यम् स हवरेष्वधस्तन्तुमागतम् नक्षोदप्रदिश पृथिव्या स्वस्तिभिरति दुर्गादिश्वा स्वाम् प्रजाम् रहत्व महित्वारेष्वधातापरेषु माप्रकामपसो भयम् मा यज्ञादिन्द्रसोभिनाः माम् द्रस्थम् नोपरातयः यो यज्ञस्य प्रसाद नस्तम् तुर्देवेष्वादतः समाहूदन्नसीमहि मनोन्माहूवामहे नारासंहेन सोमेन समन्माभिः आदये तु मनः पुनः क्रत्वे दक्षाय जीवसे योक्तसूर्यम् दृशे पुनोमनो दधा दुजैव्यो जनाः जीवम् गातम् सेमहि वयम् सोमं व्रते तव मनस्तनू बिभ्रतः सेमही ओ